श्रीमद्भागवत महापुराण दसम स्कुर्थोध्याय कंस के हास्य छूट कर योग माया का आकाश में जाकर भविष्यवाणी करना श्रीशोकुवाच बहिंतुद्वार सर्वा पूर्वदावृता ततो बालध्वनि श्रुवा गृह स ते तु तूर्णमुपव्रज्य देवक्यागर्भजन्म तन् आचार्योर्भोजराजाय यद्विद्विग्न प्रतीक्षते स तल्पा तूर्णमुत्थाय कालोऽयम् इति विह्वलः स्तुतिगृहमागात तूर्णं प्रस्खलनम् उक्तमुर्धजः तमाः भ्रातरं देवि कृपणा करुणं सती नुसेयं तव कल्याणस्त्रियं माहन्तुमर्हसि बहवो हिंसिता भ्रात शिशुमपापकोपमा त्वया दैव निशिष्टेन पुत्रिकैका प्रदीयतां नन्वहं ते ह्यवरजा दीनाहसुता प्रभो दातुमर्हसि मन्दाया अङ्गे मां चरमां प्रजाम् श्रीशोकुवाच उपगुह्यात्मजामेवं मृदत्या दीनदीनवत् याचि तस्तां निर्भर्स्य हस्तादाचिच्छेच्छदे खलः तां गृहीत्वा चरणयोर्जातमात्रां शशूषुताम् स्वार्थो मोदितसौहृदः सा तद्धस्तात्समुत्पत्तं सद्यो देव्यम्बरं गताम् अधिश्चितानुजा विष्णुः साधु सायुधाष्टमहाभुजां दिव्यस्रगम्बरादेपरत्नाभरणभूषिता धनुशूले सुरमासि शङ्खचक्रगदाधरां सिद्धचारणगन्धर्वैः अवसर किन्नरोरगैः उपासितोरूपबलिभिः स्तूयमानेदमब्रवीत् किं मया हत्यामन्द जात खलु तमान्त यत्र कां तर्वशत्रुर्माशींसी कृपणान्विधा इति प्रभासितं देवी माया भगवती भुवि बहुनामनिकेतेसु बहुनाम बभूवः तयाभिहितमाकर्णकंस परं देवकिम्बसुदेवं किं वसुदेवं च विमुञ्च प्रसृतो ब्रवीत् अहो भगिन्यहोभामयाम् वां बत पाप्मनां पुरुषाद इवापत्यं बहु हिंस्रुताश्युताः स त्वहं त्यक्तकारुण्य त्यक्तगाति सृहृत्खलः काल्लोकान् वैगमिष्यामि ब्रह्म एव मृतश्वसन् दैवमप्यन्यतं व्यक्ति न मर्त्या एव केवलं यद्विश्रम्भादहं पाप स्वसुन्निहतवाञ्चिसून् मासोचतं महाभागाम् अवात्मजान् स्वकृतं भुजः जन्तवो न सदैकत्र दैवाधीना तदा सते भूर्भौमानि भूतानि यथा यान्त्यपि च नायमात्मा तथैतेषु विपर्येति यथैव भू यथानेवं विदो भूयदो यत् आत्माविपर्ययः देहयोगाभियोगौ च संस्कृतेन निवर्तते तस्माद्भद्रे स्वनिन् स्वतनियान् मया व्यापादितानपि मानुसो च यत् सर्वस्वकृतं विन्दते वशा यावद्धतोऽस्मि हन्तास्मीति आत्मानं मन्यते स्वरे तावत्तदभिमान्यज्ञो बाध्यबाधकथामिव मयात्